श्रीहरये नमः अथ द्वितीयोऽध्यायः श्रीसुख उवाच आसीद्गिरिवरो राजन्स्त्रिकूट इति विश्रुतः क्षीरधोनावृत श्रीमान् योजनायुतमुश्रुतः तावता विश्रुतः पर्यक्तृभिःशृङ्गैः रोचयन्नास्ते रौप्यायसहिरण्मयैहे अनन्यश्च सकुभर्वा रत्नधातुविचित्रितैः नानाद्रुमलता गुल्मैर्निर्घोषैर्निर्जराम्बसाम् स चावनिजमानङ्घ्री समन्तात्पयऊर्मिभिः करोति श्यामळं भूमिं हरिन्मरकदाश्मभिः सिद्धच्चारणगन्धर्वविद्याधरमघोरगैः किन्नरै अप्सरोभिश्च क्रीडद्भिर्जुष्टकन्धरः यत्र सङ्गीतसन्नाधैर्नदद्गुहमर्शया अभिगर्जन्ति हरय श्लाघिनपरशङ्कय नानारण्यपसुभ्रातः सङ्कुलद्रोण्यलङ्कृतः चित्रद्रुमसुरोध्यानकलकण्ठविहङ्गमः सरित्सरोभिरचोथैर्पुलिनैर्मणिबालुकैहे देवस्त्रीमज्जनामोदसौरभाम्भनिलैर्युतः तस्य द्रोण्यं भगवतो वरुणस्य महात्मनः उध्यायनमृतुमन्नाम आग्रीटं सुरयोषितां सर्वतोऽलङ्कृतं दिव्यैर्नित्यं पुष्पफलद्रुमैः मन्दारैर्पारिजातश्च पाटलाशोकशम्पकैः सूतैः प्रियालैपनसैः आम्रै आम्रातकैरपि क्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकैः मधुकैशालदालैश्च तामलैरसनार्जुनैः अरिष्टोधुम्भरप्लक्षैर्भटैः किं सुखचन्दनैः पिशुमन्धैकोविधारैः सरलैः सुरधारुभिः द्राक्षेशुरं भूबेर। बिल्वै भाज भोभेर्भदर्यशभायामलैः बिल्वैकपित्तैर्जम्बीरैर्मृतो भल्लातगादिभिः तस्मिन् सरस्सु विपुलं लसत्काञ्चनपङ्गजम् कुमुदोत्पलकल्हारशतपत्रश्रियोर्जितं मद्दषड्भदनिर्गुष्ठं सकुन्तैश्च कलस्वनैः हंसकारण्डभाकीर्णं चक्राक्वैषारसैरपि जलकुक्कुटकोयष्टिधाद्यूकुलपूजितं मत्स्यकच्छपसञ्चारचलत्पद्मरचः पयः कथं भवेत् सनलनीपमञ्झुलकैर्वृतं कुन्दैकुरभगासोकैः सिरीक्षैकुटजेङ्गुदैहे कुज्जैकैस्वर्णयूधिभिर्नागपुन्नागजादिभिः मल्लिकाशतपत्रैश्च माधवीजालकादिभिः शोभितं तीरजैश्चान्यैर्नित्यैर्धुपिः अलं द्रुमैः तत्रैगता गता तत् गिरिकाननाश्रय करेणुभिर्वारणयूतपश्चरन् सकण्टकाङ्कीचकवेणुवेत्रवत् विशालगुल्मं प्ररुजन् वनस्पतीन् यद्गन्तमात्रात् तरयो गजेन्द्रं व्याघ्रातयो व्यामळं मृगासखड्गाः महोरगाश्चापि सघौरकृष्णा शरभाश्च वृखावराषर्षुशल्या गोबुक्चाला वृकमर्कटाश्च अन्यत्र शूद्रा हरिणास साध्यश्चरद्य भीता यदनुग्रहेण स घर्मधप्त करिभिक् मृतो मतश्च्युत्कलभैरनुधृतः गिरिं करीं नां परितः प्रकम्पयन् निवेश्यमानोलिकुलैर्मधासनः सरोनिलं पङ्गज रेणुरूषितं जिक्रन् विदूरान् मदविक्वलेक्षणः मृतस्वयूतेन दृशार्तिधेन तत्सरोवराभ्यासम् अधागमधृतम् विगाह्य तस्मिन् अमृताम्बुनिर्मलं हेमारविन्धोत्पलरेणुवासितं पपौनिकामं निजपुष्करोद्धृथक् आत्मानं मद्भिस्नपयत् गदक्लमः स्वपुष्करेणो धृतसीकराम्बुभेर्निपाययन् संस्नपयन् यथा गृहे गृणीकरेणो कलभांश्च दुर्मतो नाचुश्रम् कृपणो जमायया तं तत्र कश्चित् नृभदैव चोदितो राघो बलीयांश्चरणे रुषा गृहीत यदृश्च यैवं व्यसनम् गतो गजो यथा बलं सोऽति बलो विचक्रमे तथा तुरं करेणवो विकृष्यमाणम् तरसा बलीयसा विशुकृशोर्दीनधियोपरे गजाः पार्ष्णिग्रहास्तारयितुं न शाशकन् नियुत्यतोरेवम् इभेन्त्र न विकर्षतो अन्तरतो बहिर्मितः समासहस्रं व्यगमन्महीपते सप्राणयोश्चित्रम् ममस्तथामराः ततो गजेन्द्रस्य मनोभलौ कालेन दीर्घेन महान् भूत्ययः विकृष्यमाणस्य जलेव सीधतो विपर्यो भूत्सकलं जलकसखाम् इत्थं गजेन्द्रस्य यदा प्राणस्य देही विवसो यदृश्चयाम् अपारयन्नात्मविमोक्षणे शिरं दद्यामि मां बुद्धिमदा नमामि मे ज्ञातय आधुरं गजान् कुतः करिण्यः प्रभवन्ति मोचितुम् ग्राहेण पासेन विधातुरावृतोप्यहं च तं यामि परम्परायणं यः कच्छ सो बलिनोऽन्तकोरघात् प्रचण्डवेगात् अभिधावतो भृशं भीतं प्रपन्नं परिपाति यद्भयात् मृत्युप्रधावति अरणं तमीमही इति श्रीमद्भागवते महापुराणे अष्टमस्कन्ते मन्वन्तरानुवर्णने गजेन्द्रोभाग्याने द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द गोविन्द सद्गुरुनाथमघराजकी जय